मुद्गलपुराण खंडम फंबोदरचर अध्या फोर्टी फ्रवणमाहात्म्यवर्णन श्रीगणेशा नम दक्ष उवाच गणेश ब्रह्मदर्वायक मंत्रादीना विशेषण सिद्धिद पूर्ण भाव मुद्गल उवाच कीलकेन विहीनाश्च मन्दा नैव सुखप्रदाः आदौ कीलकमेवं वै पठित्वा तदा वीर्ययुधामन्दा नानासिद्धिप्रदायकाः भवन्ति नात्र सन्देहकथयामि यथा श्रुतं समादिष्टं चाङ्गिरः सा मह्यं गुह्यतमं परम् सिद्धिदं वै गणेशस्य कीलकं शृणुमानद अस्य श्रीगणेशकीलकस्य शिवऋषिः अनिष्ठुप्ः श्रीगणपतिर्देवता ॐ गं योगाय स्वाहा ॐ गं बीजम् विद्या विद्या शक्ति विद्याविद्याशक्तिगणपतिप्रीत्यर्थे जपे विनियोगः सन्दर्श्या जिन्यासांश्च कुर्यादादौ तथा परान् एकाक्षरस्यैव दक्ष षडङ्कानाचरेत्सुधीः ततोऽध्यायेद्गणेशानां ज्योतिरूपधरं परम् मनोवाणीविहीनं च चतुर्भुजविराजितं शुण्डादण्डमुखं पूर्णं द्रष्टुं नैव प्रशक्यते विद्याविद्यासमयुक्तं विभूतिभिरुपसितम् एवं ध्यात्वा गणेशानं मानसै पूजयेत्पृथक् पञ्चोपचारकैर्दक्षततो जपं समाचरेद् एकविंशतिवारं तु जपं कुर्यात् प्रजापति ततस्तोत्रं समुच्चार्यपश्चात्सर्वं समाचरेद् रूपं बलं श्रियं देहि यशो वीर्यं गजानन मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु यदा देवाधयः सर्वे कुण्डिता दैत्यपैकृताः तदा त्वम् तान् निहत्य स्म कुरुषे वीर्यसंयुतान् तथा मन्द्रागणेशानकुण्डिताश्च दुरात्मभिः शापैश्च तान् सवीर्यां स्ते कुरुष्वत्वं नमो नमः शक्रयः कुण्डिताः सर्वाः स्मरणेन त्वया प्रभो ज्ञानयुक्तास्स वीर्याश्च कृता विघ्ने शते नमः चराचरम् जगत् सर्वम् सत्ताहीनम् यदा भवेद त्वया सत्तायुधम् धुण्डे स्मरणेन कृतं च ते तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप स्मृत्वा ते वीर्ययुक्तानि पुनर्जातानि ते नमः ब्रह्मणि योगहीनानि जातानि स्मरणेन ते यदा पुनर्गणेशागयुक्तानि ते नमः इत्यादिविविधं सर्वं स्मरणेन च ते प्रभो सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः तथा मन्त्रागणेशान् वीर्यहीना बभूवीरे स्मरणेन पुनर्दुण्डे वीर्ययुक्तान् कुरुष्वते सर्वं सत्तासमयुक्तम् मन्त्रपूजादिकम् प्रभो मम नाम्ना भवतु ते वक्रतुण्डाय ते नमः उत्कीलय महामन्त्रान् जपेन स्तोत्रपाठतः सर्वसिद्धिप्रदा मन्त्रा भवन्धुत्वत्प्रसादतः गणेशाय नमस्तुभ्यं हेरं हेरम्भायैकदन्दिने स्वानन्दवासिने तुभ्यं ब्रह्मणस्पदये नमः गणेशकीलकमिदं कथितं ते प्रजापदे शिवप्रोक्तं तु मन्त्राणामुत्कीलनकरं परं यः पठिष्यति भावेन जप्त्वा ते मन्त्रमुत्तमं स सर्वसिद्धिमाप्नोति नाना मन्त्रसमुद्भवां येन त्यक्त्वा गणेशस्य मन्त्रं जपति नित्यदा स सर्वफलहीनश्च जायते नात्र संशयः सर्वसिद्धिप्रदं प्रोक्तं कीलकं परमाद्भुतं पुराणेन स्वयं शम्भुर्मन्त्रजां सिद्धिमालभत विष्णुब्रह्मादयो देवामुनयो योगिनः परे अनेन ते लेभिरे च ऐलकीलकमाद्यं वै कृत्वा मन्त्रपरायणः गतस्वानन्दपुर्यां स भक्तराजो बभूवः सस्त्रीको जडदेहेन ब्रह्माण्डमवलोक्यतु गणेशदर्शनेनैव ज्योतिरुहो बभूवः दक्ष उवाच ऐलो जडशरीरस्थकथं देवादिकैर्युदं ब्रह्माण्डं स ददर्शैव तन्मे वदकुतूहलं नरकादीन साक्षान्नरकादीन्महामदे अपश्यच्च कथं पापी दर्शनयोग्यकान मुद्गल उवाच विमानस्थः स्वयं राजा कृपया तान्ददर्शः गणेशानां जडस्थश्च शिवविष्णुमुखान् प्रभो स्वानन्दगे विमाने ये संस्थितास्ते शुभाशुभे योगरूपतया सर्वे दक्ष पश्यन्ति चाज्ञसा ये दत्ते कथितं सर्वमैलस्य चरितं शुभं यशृणोति स वैमृत्यो भु क्रिं मुक्रिं लभे ध्रुवं कण्डं नरोत्तमः पठति ब्रह्म भूदश्रावयते जायते स्वयम् नदृश किुक्प्रदम मदं योग महा लंबोदरस्तु नाश्रुति स्मृतीना यश्रवणन फलद तदस्य खंड सेवण भेदिह नानादानानि ये दद्युस्तीर्थेषु स्नानकारकाः तेभ्यः शदाधिकं पुण्यं लभे दस्य दुःसंश्रयाद व्रतानि यज्ञकान् सर्वान् कुरुते मानवः अस्य श्रवणमात्रेण लभे तस्माच्छदाधिकम् सर्वा यत अश्रवणमा लभे पुण्यमारकत्रपौत्रादि संयुक्त धनधान्यादिभाग्यवान्वणेन नरसद्यो सद्र न संशय यद्यदिच्छदि तत्तत्तु सफलं जायते क्षणाद श्रवणेन प्रजानाद खण्डस्यास्य न संशयः बहुनात्र किमुक्तेन साक्षाद्योगप्रदः प्रजापदे इदं लम्बोदरस्यैव चरिदं सर्वसिद्धिदम् कथितं ते समासेन किम् भूय श्रोतुमिच्छसि सूद उवाच यथा दक्षाय विप्रेष्य मुद्गलेन प्रकाशितं मया तव तथाग्रेऽपि कथितं भार्गवाग्रणीः चरितं शौनकाद्याश्च श्रुतं लम्बोदरस्य यद संन्योऽहं भवतां योगात् गणेशचरितेरथः विस्तरेण शिवाद्याश्च वेदाध्याश्चेषमुख्यकाः नैव वर्णयितुं शक्ता बभूवुस्तत्र कोऽप्यहं व्यासेन कथितं सर्वं चरितं यादृशं पुरा तादृशं कथितं विप्रश्रोतुमिच्छसि किं पुनः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि महापुराणे पञ्चमे खण्डे लम्बोदरचरिते श्रावणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः श्री गजाननापणमस्त श्री मुद्दुराणे पंचमकंड